एकनवत्यधिकशततमोऽध्यायः वैशंपायन उवाच धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ अन्वगच्छत् तदा यान्तौ भार्गवस्य निवेशने सोऽज्ञायमानः पुरुषानवधाय समन्ततः जिष्णुर्यमौ चा महाु भैक्ष युधिष्ठिराय निवेदयाचक्रुरदी सत्वा। ततस्तु कु दुपदात्मजान मुच काले त्वमग्रमादाय वदन्यमग्रद बलिंच विप्राय च चेह भिषा ये चान्नमिच्छन्ति ददस्वतेभ्य परिश्रिताये परितो मनुष्याः ततश्च शेषम् प्रविभज्य शीघ्रम् अर्धम् चतुर्धा मम चात्मनश्च अर्धम् तु भीमाय देहि भद्रे य एष नागर्षभतुल्यरूपः गौरो युवा संहनोपपन्न एषो हि वीरो बहुभुक् धृष्टरूपेऽवतु वतुराजपुत्री तस्यावच वचः साधु विशङ्कमाना यथावदुक्तम् प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम् कुशैस्तु भूमौ शयनम् चकार माद्रीपुत्रः सह देवस्तरस्वी सर्वे संस्तीर्य वीराः अगस्त्य अभितो दिशन्तु शिरांसि तेषाम् कुरु सत्तमानाम् कुन्ती पुरस्तात्तु बभूव तेषाम् पादान्तरे